ब्रह्मणे ब्राह्मणमालभदे शर्त्राय राजन्यम् मरुद्वावैश्यम् तपथे श्रोत्रम् तमधे तस्करम् नारकाय विरहणम् आत्मने क्लेशम् आक्रयाय योगो कामाय मुग्दश्चलोम् अधिकृष्टाय मागधम् गीताय सूतम् नृत्ताय शैलोषम् धर्माय सुभागरम् धर्माय लभम् अविष्ठायै भे मलम् रसायकारम् आनन्दाय स्त्रीशखम् रुमुदे कुमारे पुत्रम् मेधायैर्थम् धैर्याय तत्क्षाणम् श्रमाय कौलालम् मायायैकार्मारम् कार्मारं। शुभे भवम् श्रव्यायानिषुकारम् हे ते जन्मकारम् कर्मणे रज्जाकारम् दुष्टाय रज्जसर्गम् प्रत्यवे मृगजम् अन्तकाय स्वनितम् सन्ध्ये जालम् गेहायपदिम् निरृत्ये परिवित्तम् आग्े परिविधानम् अलाराद्धे पर दिलचोपदिम् अला पवित्राय भिरजम् प्रज्ञानाय नक्षत्रदृशम् निष्कृत्यैपेयस्कारीम् बलाय पदाम् वर्णाय पुरुषव्याख्याय दुर्मदम् प्रियेभ्य उन्मक्तम् गन्धर्वाप्सराभ्यभ्रात्यम् सर्पदेव विनेभ्य प्रतिपदम् अवेभ्यक्षितवम् अजितवम् सुशादेभ्य विदमकारम् यातुषादेभ्यः कण्डककारम् उत्सादेभ्यः कुब्दम् प्रमुदेवामनम् द्वाभ्यश्लामम् सञ्ज्ञाय स्मरकारे कामात्याम् आशिक्षायै प्रश्निनम् उपशिक्षायाभिप्रश्निनम् मर्यादायै प्रश्नविभागम् प्रत्यये स्तयहृदयम् वैरहत्याय विशुनम् विविधये क्षर्तारम् औपद्रष्टाय सङ्ग्रहीतारम् बलायानुगरम् भोम्ने परिष्कन्दम् प्रियाय प्रिया प्रिया अयष्ट्याश्वसादम् मेधाय वासः पत्कूलीम् प्रकामाय लित्रीम् भायेहारम् प्रथाया आग्ने नागस्य पृष्ठायाभिषेक्तारम् रथस्य विष्टवाय मात्रयम् नेकम् देवलोकाय पेषितारम् मनुष्यलोकाय प्रकटितारम् सर्वेभ्यवलोकेभ्य स्वर्गाय लोकाय भागदुःखम् परिशिष्टाय नागाय परिवेष्टारम् हर्मेभ्यवस्थितम् देवाया शुभम् पुष्टे गोपालम् तेजसेजपालम् वेर्यायापि बालम् इरायै केनाशम् केनालाय सुराकालम् भद्राय गृहम् श्रेयधे वित्तथम् अध्यक्षाय नक्षतारम् मन्यवेयस्तापम् क्रोधाय सदम् शोकायापि सदम् उत्कूलविकोलाभ्याम् प्रस्थितम् योकाय योत्तारम् क्षेमाय योगोत्तारम् वपुषयमानस्कृतम् शीलायाञ्जले कारम् निरक्ते दोषकारे यमायासो यम्येयमसो असर्वभ्यावतोका संवत्सराय परिचारणे परेवत्सरायाभिता यदा वत्सरायापस्तद्वरे यद्वत्सरायासराय विषर्जराय प्रयत्ने वनाय वभम् अन्यतोऽरन्यायतापम् सरोगाभ्योऽभै वरम् वेषन्ताभ्यो दाशम् उपस्थावरेभ्यो भैरिन्दम् नद्वराभ्यः सौष्कलम् वार्याय वेवम् अपार्याय मार्गारम् ीर्थेभ्य आनन्दम् विषमेभ्य मेलालम् पर्णकं। गुहाभ्यः किरातम् सानभ्य जम्भगम् पर्वतेभ्यः किम्बोषम् ऋतुश्रुत्वायुकुलम् घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकम् महदेवेनावादम् क्रोशाय गुणवध्वम् क्रन्दाय दन्तभ्याघातम् अवरस्कराय धायम् साध्येभ्यः सन्मन्नम् बेभत्सायै पौल्कसम् भोक्ते जागरणम् अभोगेश्वभनम् तुलागैवानिजम् कर्णाय हन्यकारम् विश्वेभ्यो देवेभ्यश्चिद्भरम् पश्चोषाय ग्लावम् नित्ययवालिनम्भम् सकंसाय पुरशिवम् अधायमुद्लभय युल्या धर्माय भद्रवये धर्माय पाणिशङ्घातम् नृताय मोहायसम् आनन्दाय तवम् अक्षराजाय लवम् कृतायतभाविनम् रेखायाजनपदशनम् द्वापराय वःसदम् कलये स्थानम् दुष्कृताय जलकाचार्यम् अध्वन व्यवसायैको व्यच्चम् निर्दृत्यैको घादम्भ्यान्तम् योगान् प्रचन्तम्भ्यक्षमाणतिष्ठते भूम्येणवेण्डालम् अन्तरिक्षायम् श्राधिणम् निर्वेखाजयम् सौर्यायक्षम् चन्द्रवदेर्गणम् यक्षत्रयेभ्यः पिलासम् अन्ये शुक्लम् विङ्गणम् रात्रे कृष्णम् पिङ्गाक्षम् राजय पुरुषमालभज प्राणमाणम् यानमुदायसमानन्दानायवे सूर्यालभजय मनश्चन्द्रमजेभ्यो प्रजापदय पुरुषम् अथेभ्यालभज हरिसमधिलीर्घम् हरिकृषम्यगुम्धलम् हरिशुक्लमधिकृष्णम् अधिशलक्ष्णमधिम् हरिडमन्दनम् हरिमिषम् आशायै जामे प्रतीक्षायै कुमारी वो